पादुका श्रीरङ्गनाथपादुकासहस्रं पद्धति ट्वेण्टिफैव् सन्निवेशपद्धतिः अनुष्टुप् अणोरणीयसीं विष्णोर्महतो विमहीयसीं प्रपद्ये पादुका नित्यं तत्पदेनैव संहिता वसन्तमालिका प्रतितिष्ठदि पादसस्मितायां त्वयि नित्यं मणिपादुके मुकुन्दः इतरे दुपरिच्छदास्तयेदे विभवव्यञ्जनहेदवो भवन्ति तव रङ्गनरेन्द्रपादरक्षे प्रकृतिस्सन्नभिभक्तिपारतन्द्र्यात् भवदीं वहदीव पन्नगेन्द्रः प्रधिदस्वस्ति कलक्षणैः शिरोभिः उपजाति परस्य पुंसः पदसन्निवेशान्प्रयुञ्जदे भाविदपञ्चरात्राः अखप्रदीपानपदिश्य पुण्ड्रानङ्गेषु रङ्गे शयपादुके त्वान् विमृश्य रङ्गेन्द्रपदिं वराया श्रुते स्थितां मूर्धनिपादुके त्वां बध्नन्दिवृद्धास्समये वधूनां त्वन्मुद्रितान्याभरणानि मौलौ अवन्दिरङ्गेश्वरपादरक्षे दीर्घायुषां दर्शितभक्त्रिबन्धाः आशाधिपानामवरोध नार्यस्त्वन्मुद्रिकां मङ्गलहेमसूत्रैः इन्द्रवज्र व्यूहक्रमेण प्रधितारमग्रे सन्दर्शयन्तीं मणिपादुके त्वां पादुं त्रिलोकीं पदपद्मभाजम् सौदर्शनी क्षक्रिम वैमी शौरे वसत बद्धासी काजकर्णि मध्येशा मुरिपोर्मणिपादुके संश्यसे सरसीजाया गृहीत रूप कि रंग विहार्यं मानोचितस्य मदधीनजनस्य नित्यं मा भूधकृपणते दि विचिन्तयन्त्या बीकृतं ध्रुवमवैमि वलग्नदेशे कार्श्यं त्वया कमललोचनपादरक्षे मध्ये कृशामुपयधः वृद्धिम् मन्ये समीक्ष्य भवतीं मणिपादरक्षे नित्यं मुकुन्दपदसङ्गमविप्रयोगौ निश्चिन्वदे कृदधियः सुखदुःखकाष्ठाम् शङ्गे सि दुश्चरणपङ्कजयोर्भजन्ती रक्षाप्रसाधनविकल्पसहामवस्थाम् मान्याकृतिर्निविशसे मणिपादरक्षे मध्ये परिच्छदविभूषणवर्गयोत्स्वम् अङ्गान्तरेषु निहितान्यखिलानि कामं पर्याय कल्पनसहानि विभूषणानि नित्यं मुकुन्द पदपद्मतलानुरूपम् नैपध्यमम्बभवती नयनाभिरामं ये नाम भक्तिनियतैस्तव सन्निवेशं निर्विश्य नेत्रयुगलैर्न भजन्ति तृप्तिं कालक्रमेण कमलेक्षणपादरक्षे प्रायेण ते परिणमन्ति सहस्रनेत्राः मञ्जुभाषिणि पदमप्रमाणमिति वादिनां मदं मधुजित्पदे महदिमास्म भूदिति व्युदपादितस्य चरणावनित्वया निगमात्मनस्तव समप्रमाणदा अप्रभोदमभवज्जगत्त्रयं यस्य मादुमुदि तस्य पादुके अप्रमेयममितस्य तत्पदं नित्यमेव ननु त्वया आलवालमिव भादिपादुके पादपस्य भवती मधुद्विषः यत्समीप विनतस्य शूलिनः सारणी भवति मौलिनिं न गा मोदमानमुनिवृन्दषट्पदादिमुक्तिमकरन्दवर्षिणी काभिरङ्गनृपदेः पदाम्बुजे मालिनी युगपदनुविधास्यन् यौवतं तुल्यरागं यदुपदिरधिचक्रे यावदोरूपभेदान्तदिदमधिविकल्पं बिभ्रदि सन्निवेशं तव खलु पदरक्षे तावदी मूर्तिरासीद् मन्दाक्रान्त तद्वृत्नुगुणतया वाम व्याप्ते रंग प्रथित भवे भूमि का सूत्रधारे मे विश्वस्तिमयनाटि ने ना संस्था पादुके नर्तकीव उगीति माने परं समाने प्रत्यक्षेणागमेनापि हरिचरणस्य तवापि तु वैषम्यं रक्ष्य रक्षकत्वाभ्याम् यदि कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे सन्निवेशपद्धतिः पञ्चविंशी ॐ